ध्यायामो धलावकुण्ठनवतीम् तेजोमयीम् नैष्टिकीम् निग्रापाङ्गविलु भगवती मन्द्रीमुखी वात्तस्यामृतपक्षिणीम् तु मधुरम् सङ्गीर्तनालापिनी श्यामाङ्गीं मधुसिकसूक्तिम् अमृतानन्दात्मिकापीश्वरी ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः गणाना आं वा गणपति नमवा महे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराचन्द्रमणा न शृण्वन् उदेभ्यस्ति दसादनम् ॐ श्रीमहागणपतये नमः प्रणो देवी सरस्वतीर्वाचीवती श्री नाम मित्रास्ट् टैम् स्टार्टेड् लर्निङ्ग् नवग्रहसूक्तम् of the mantra prashna book it's in page 423 423 so everybody have it then we can actually uh, do it once together and then we can uh, individually practice what we learned last time then do for the new portion everybody is ready yeah yeah i made a mistake saying nakshatra uh, sukta uh, in avogra sukta okay my mistake sorry all right it is page 423 of mantra pushpam we have it okay ready we'll do the first part uh, till the end of that page which is om adi devada pratyadi devada sahiday adityaya namaha till there okay from the beginning 1 2 3 om शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नो शान्तयेत् ओम्भूः ओम्भुवः ओं ओम् आह ॐ जनः ॐ तपः ओं सत्यम् ॐ तत्तवर्वरे एण्यं भर्गो देवस्य धीमहि धियो यो नः ममोपातसमस्तक्षय द्वारा श्रीपरमेश्वरप्रीत्यर्थम् आदित्यादिनवग्रहदेवताप्रसादसिद्ध्यर्थम् आदित्यादिनवग्रह नमस्कारान् करिष्ये ओम् आसत्ये रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च हिरण्ययेन सविधारदेन देवो यादिभुवनाभि पश्यन् अग्निं दूदम्वृणीमहे कोतारं विश्ववेदसं अस्य यत्नस्य क्रतुम् येषामी चे पशुपधिनाम् लास्ट् टै okay It's we'll coming yeah. together because I think we took a break two weeks in between. So some of it's up. Yeah, <laughs> that's true. OK, anyway, practice and see what happens. OK, so this is the best way to learn anyway. So who wants to try it on their own? The first part should be easy. Only the only second part is maybe a little difficult. Okay, शुक्लाम् बरधरम् विष्णुं शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपक्षान्तयेत् ओं भूः ओं भुवः ओगं सुवः ॐ ओम महः ओम् जनः ॐ ओम तपः ओगं सत्यम् ओम् तत्सवितुर्वरे एण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात ॐ मापो ज्योतीरसोमृतम् ब्रह्मभूर्धुवस्वरो ममोपातः समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् आदित्यादिनवग्रहदेवताप्रसादसिद्ध्यर्थम् आदित्यादिनवग्रहनमस्कारान् करिष्ये ओम् आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यम् चिरण्ययेन सवितारथेना देवो याति भुवना पश्यन् अग्निम् सूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य येषामीशे पशुपतिः पशूनाम् चतुष्पदामुत च द्विपदाम् निष्क्रीतोऽयम् यज्ञियम् भागमे तु रायस्कोषा यजमानस्य सन्तु ॐ अधिदेवता प्रत्यभिदेवता सहिताय आदित्याय नमः Good thing, there are not many ups and downs here. The soras are very few. Yeah. yeah. It's easier to chant. Who wants to try next? I can go next, Hari. Okay, go ahead, Raja Ji. Om Shuknam Bharadaram Vishnam Shashivarnam Chaturbhujam Prasanna Vadanam Dhyayet Sarvavikno Pashante Om Bhuhu ुवः ओकुंसुवः ॐ महः ॐ जनः ॐ तपः ओकुं सत्यम् ओ तल्सविदुर्वरेण्यम् भर्गो देवस्य धीमहि दियो यो न प्रचोदयात् ओमापो ज्योतिरसो मृदम् ब्रह्मभूर्भुवः सुवरो धीमहि मा ज्योतिरस्यो मृदं ब्रह्मभूभुवस्वरो ममोपातस्तुरिदक्षय द्वारा श्रीपरमेश्वरप्रीत्यर्थं नवग्रह देवदा आदित्यादिनवग्रहदेवता प्रसादसिद्ध्यर्थम् आदित्यादिनवग्रहसंस्कारान् करिष्ये रजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् चिरण्ययेन सविता रतने देवा यादि भुवना विपश्यन् अक... अग्निं दूदं वृणीमहे होतारं विश्वदे वेदसं अस्य यज्ञस्य सुकृतं येषामीशे पशुपतिः पशूनां चतुष्पदामुदुपदां निष्क्रीयत ओयं निष्क्रीतोऽयम् निष्क्रियोस्ताय स्पोष यजमानस्य सन्धुेवता वृत्यधिदेवता सहिताय आदित्याय नमः वां मरधरं विष्णुं चिवर्णं चतुर्फुजं प्रसन्नवदनं छ्याये विघ्नोः शान्तये ओं ॐ भुः ॐ भुवं भुवः ओ ॐ महः ॐ जनः ॐ तपः ओहुं सत्यं ॐ तत्सवु ॐ तत्सवितुर्वरे एण्यम् हस्तो देवस्य भूमहीयो नप्रचोदया मापो ज्योतिरसो अतं ज्योतिरसो ओ मापो ज्योतिरसो मृतं ब्रह्म ॐ मापो ज्योतिरसो अृतं ब्रह्म फुपुवस्य मोपात्तसमस्तक्षय द्वारात्यादिताप्रसादसिद्धत्यादिकरान् करिष्यन् करिष्ये रजसाव आसत्येन आदित्येन ॐ आसत्येन रजसावर्तमानो निवेशयन्नमृतं मर्त्यं च ॐ आसत्येन रजसावर्तमानो निवेशयन्नमृतं मत्यं च हिरण्ययेन हवितारहीन पुष्पदामुप य नमः ुक्लाम्बरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नो वशान्त्यये ॐ भुवः ॐ गुं सुखः ॐ महः ॐ जनः ॐ तवः ॐ ॐ गुं सत्यं ॐ तत्सविदुर्बरेण्यं फर्गो देवस्य धीमहि ध्येयो यो नः प्रचोदयात् ॐ आवो ज्योतिरसोमृतं आपो ज्योतिरसोमृतं ब्रह्म ॐ आपो ज्योतिरसो मृदं ब्रह्म पूर्भवस्सुवरो मम पात्र समस्त दुरिदक्षय द्वारासि परमेश्वरप्रीत्यर्थम् आदित्यादिनवग्रहदेवताप्रसादसिद्ध्यर्थम् आदित्यादिनवग्रह नमस्कारान् करिष्ये ॐ आसत्येन रजसा वर्तमानो निवेशयन् अमृदम् मत्यम् च हिरण्ययेन सवितारथानो रो हिरन्ययेन सवितार धो यादिभुवना विपश्यन् अग्निं दूदम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुप्षाः पशूनाम् एषामीषे पशुपतिः पशूनाम् योषा यजमानस्य सन्तु ओम अधिदेवदा प्रत्यधिदेवदा सहिताय आदित्याय नमः ओम् शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये ओम् भुवः ओम् ओम् भुवः ओगम् सुवः ओम् महः ओम् जनः ॐ तपः ओगम् सत्यम् ओम् तत्सपितुर्वरे एण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओमापो ज्योतीरसोऽमृतम् ब्रह्म भूर्भुवस्सुवरोम् ममोपातसमस्तदुर्दक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् आदित्यादिनवग्रहदेवता प्रसादसिद्ध्यर्थम् आदित्यादिनवग्रहनमस्कारान् करिष्ये आसत्येन रजसा वर्तमानो निवेशयन्न मृतम् मत्यम् चरण्ये हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन् विपश्यन् अग्निम् दूतम् वृणीमहे होतारम् विश्वेलसम् सुक्रतुम् येषामीशे पशुपतिः पशूनाम् चतुष्पदामुतश्च द्विपदाम् निष्क्रीतोऽयम् यज्ञियम् भागमेतुरायस्पोषा यजमानस्य सन्तु ओम् अधिदेवताधिदेवता य नमः इह इन् दर्डर् लैक् इत्या सोम इन् मून् दर् इस् अङ्गार मङ्गलग्रहन् द बुधा इोस् दर्डर् ओके So So the next one will be for Soma, uh, for Soma, Chandra, okay. Hari, Veda, this this This is is? is which Vedam Vedam, not any नेक्स्ट् मोडेल् बि फोर् सोमा फोर् चन्द्रो हरिस् नाट् एनी वेदम् दिस् इस् जस्ट् doesn't say... will okay. so, uh, so okay, we'll study the next ैत्री ब्राह्मणं अष्ट सोम न्द्र ओके य स्व समेतु आप्याय स्व ॐ आप्याय स्व समेतु ॐ आप्याय समेतु यस्य ओके यस्व यस्व आप्यायस्व आप्यायस्व मीन्स् गेट् ओके और् कम् सोमृष्णीयं सोम वृष्णीयम् विश्वतः सोम वृष्णीयम् ॐ आप्यायस्व समेतु विश्वतः सोम वृष्णियम् ॐ आप्याय स्व समेतु विश्वतः सोम सोम ओके भवाजस्य सङ्गथे भवाजस्य सङ्ग जोमो अब्रवीदी सोमो अब्रवीद्रवी सोमो अब्रवीद अब्रवीदन्तर्विश्वानि भेषजा अब्रवीदन्तर्विश्वानि भेषजा अब्रवीद्रानि भेषजाके परबडि अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा Okay, the words. We'll try the whole line. Apsume somo abhravi tantar vishwani bheshaja Apsume somo abhravi tantar vishwani bheshaja ओकेलम् ओके ट्र नेक्स्ट् वन् अग्निं जिशम्भुवं शम्भुव पुरुकं विश्व शम्भुवौ शम्भुवमापश्च विश्व शम्भुवम् आपश्चमापश्च विश्वशम्भुवमापश्च विश्वभेषु गौरी मी माया सलिलानि गौरी गौरी विहाय कक्षत्येकपदी द्विपदी सा तक्षपदी एकपदी द्विपदी तक्षत्येकपदी द्विपदी सा चतुष्पदी तक्षत्येकपदी द्विपदीचतुष्पदी नक्षत्येकपदीपदी सा चतुष्पदी Okay, for everybody, any issues, any problems? No. Yeah. Okay, we'll try the whole line. Okay. Mm -hmm. Gauri mimaya salilani takshat ke kapadi dipadisa chadhushpadi. Gauri mimaya salilani takshat ke kapadi dipadisa dipadi, dipadi, chadhushpadi. चतुष्पदी ओकेन्दके अष्टापदी नवपधि बभूवुषि अष्टापदी नवपधिपधि बभूवुषि सहस्राक्षरा सहस्रात्रा सहस्रा परमे व्योमन् स्व परमे व्योमन् सहस्राक्षरा परमे व्योमन् अहस्रक्षरा परमे व्योमन् ओके नवपदि Bhabo Bushi. Bhabo Bushi. Not Bushi. You no, know, two times. Only once, okay? I'll do that one more time. Ashtapati Navapati Bhabo Bushi. Ashtapati Navapati Bhabo Bushi. Ashtapati Navapati Bhabo Bushi. Is that clear now? There's no two times. This is Babhu, Ushi, Ishi is up. That's all. It's not Ushi, not double time. Only once. Okay? okay. Yeah, in our book it says twice. That's right. Yeah, that is not correct. Only once. Okay. I think it might be a printing mistake. Okay? Yeah. yeah. So let's try the whole line. अष्टापदी नवपधि बभूवुषि सहस्राक्षरा परमे व्योमन् अष्टापदि नव बभूपुषि सहस्रष्टाक्षरा ॐ अधिदेव प्रत्यधिदेवदासहिताय सोमाय नमः सोमाय नमः परमेन्लि नो डबल् व्यो व्यो नो लैक् देट् ओन्ल पर् पर्लि वन्स् ओके अक्षर ओन्लि दिस्ट् लेटिस्ट् दोल्ड् थिङ्ग् फ़ोर् सोम ओकेल्स् रिपीट् वाय् ओम् आप्याय स्व समेतु ते विश्ववाचस्य सङ्गते अप्सुमे सोमो अब्रवीदन्तर्विश्वानि अग्निम्ज विश्वशम्भुवमापश्च विश्वभेषजीः गौरीमिमायसलिलानि तक्षत्येगपदी द्विपदिता चतुष्पदी अष्टापधी नवपधि बभूषि सहस्रा अक्षरा परमे व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ आप्य पाजे कते तुमे एसा अब्भे अंतदर्वाणी तुसे जा अक्षि निविद्वतम भुवमापस्य विदेशजती गौ गायनानि तत्क श्रीपति विपती पति पति ओम इष्टमः इदं विश्वानिवेशजा अष्टापदी नवपदी बभूष्टि सहस्रा सहस्राक्षरा परमे व्योमन् ॐ अधिदेवता प्रत्यधि सहिताय सोमाय नमः Everybody is okay with the whole thing? Yeah, yeah, yes. Yes. Yeah. Yes. So have you tried to uh, try individually? Yes. Yeah. Okay. So who wants to try first? I can go. Okay. Go ahead. Om Apya Eswa Sameh Tu Te Vishya. ोम वृष्णम् इष्टोम वृष्णियं भव पादस्य सङ्गथे अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा अप्सम्भुवमाश्च विश्वभेषजीः विश्व शौरिमिमायफलिलानि क पदी त्रिपदी सा चतुष्पदी अष्टापदी नवपदि बभु उषि सहस्रा आक्षरा परमे व्योमन् अधि ॐ अधिदेवता प्रकृतिदेवता सहिताय सोमाय नमः ॐ आभ्यायस्व समेतु ते विश्वतः सोमवृष्णि भवा वाचस्य सङ्गते अप्सुमे सोमो अब्रवीतन्तर्विश्वानि भेषजा अभुंश्च विश्वशम्भुवमापश्च विश्वभेषजीः गौहीमिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी भूवुषी सहस्रा अक्षरा परमे व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ओम् आप्यायस्व समेतु विश्वदसोमस्य सङ्गते अप्सुमे सोमो अब्रबीबन्धर्विश्वानि अग्निं च विश्वशम्भुव सलिलानि सा चतुष्पदी अष्टापदी नवपदि बभुभुषि सहस्राक्षरा परमे व्योमन् ॐ अधिदेवता प्रत्यधिता सहिताय सोमाय नमः <coughs> अप्सु सो मे सोमो अब्रवीदन्धर्विश्वानि भेतजा अग्निम् विश्वसम्भुवम् आपच्छ विश्वभेचीः गौविरीमिमाय सलिलानि तक्षत्येकपदी दिवति सा च दुष्पदी अष्टापदी नवपदी बभूवुषि सहस्रा आचरा परमे व्योमन् ओम् आप्याय स्व समेतु ते विश्वतः सोमवृष्णीयम् भव वाजस्य सङ्घते अप्सुमे सोमो अब्रवीदन्तर्विश्वानि भेषजा अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजीः गौरीमिमायसलिलानि कक्षत्येकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभुवुषी सहस्रा आक्षरा परमे व्योमन् ओम् अधिदेवता प्रत्यधिता सहिताय सोमाय नमः वेरि गुड् बडि एल् ओके शाल् बी लर्न् दि नेक्स्ट् पारस् हलो नेक्स्टारेक्स्ट ग्रह ओम् अग्निर् मूर्धा दिवः ओ अग्निर् मूर्धा दिवः ॐ अग्निर् मूर्धा दिवत्पथि पृथिव्या ककुत्पथि पृथिव्या ककुत्पथि पृथिव्या ककुत्पथि पृथिव्या अयम् ककुत्पथि अयम् ककुत्पतिः पृथिव्या अयम् वर्डचार ओके अग्निर् मूर्धा दिवः When you say it together, become di vah ka kutpa dhif prithiv ya Okay? But when you split it, you have to say the visarga completely. So we'll try the whole line. Om agnirmur dhadi vah pa kutpa dhif prithiv ya ayam Om agnirmur dhah di vah pa kutpa dhif prithiv ya Kya yeah, Ayyam Om Akramu Viva Kya Khritiv Kya Ayyam Everybody is okay with that line? So we'll try the next line. ीथिवी भवा नृक्षरानिवेशनी भवा प्रथिति भवा नृक्षरानिवेशनी इस् दैन् ओकेडि डिफिकल्टि इन् दैन् पृथ्वी इस् ृक्षर निवेशनीर् नेक्स्ट् लैन् यानप्रथा yet ashya ashya namah yachha nasho pradha ah okay any yeah. problems there no no okay khetrasya patina क्षेत्रस्य पतिना क्षेत्रस्य पतिना विते क्षेत्रस्य पतिना वयगुहिते क्षेत्रस्य पतिना वय वयगुहिते नेव जयामसि Ne neva, jaya neva jaya masi, neva jaya masi, neva jaya masi. Neva jaya masi, okay? Let's try the whole line. Any problems in the new words? No. No. Okay. Khetra jyapati nawaya gunghi te neva jaya masi. क्षेत्रस्य पतिना विते क्षेत्रस्य पतिना वयगुम् हिते नेट् लैन् गेस् next line what is in your book uh, people who have a different book what does it say gamashyam poshayitva or poshayitva poshayitva or poshayitva huh poshayitva okay poshayit poshayitva in my book is, is poshayitva itnva hitnva can you yes. say the same in your books too in mine it's poshayintva Yeah. That's uh, my... This one is the right one. Ask that Tha comes first before Na. Yeah, that's correct. Yeah, in our book Tha comes before Na. Ittnva. Poshayitnva. Yeah, in the... Ahasamun uh, book it says Poshayitva. And the mantra book for me it says Poshayitva. Okay, we will try Pasha Yesanva, okay? That is what the Mantra Bhushma says. We will assume it is correct. <laughs> I even I have <clears throat> doubts there. I think it might be a uh, printing error, but uh, I am not too sure. But uh, we will do it this way and then I will find out if there is an error, okay? I think it's saying, it will... Be... Saying Na first is easier though. I agree, yeah. Haha <laughs> But I don't think that's how it's written, so that's why otherwise they lot of places they write it correctly, so nobody has said anything about this, so we'll just go with Porsche. Okay. okay, and then I can see whether it's correct, so I'll ask somebody again. GAMASHVAM POSHA ITNWA GAMASHVAM POSHA ITNWA ृदृशे गामश्वम् पोषयित्वा स नो मृगादीदृशे धिदेवदा प्रत्यधिदेवदासहिताय अङ्गारकाय नमः देवता सहिताय अंगारकाय नमः ओम अदिदेवता सत्यतिदेह तथाहिताय अंगारकाय नमः परबडी ओके सो फार यस ओके शाल वी डेट द होल पैराग्राफ फॉर गर्ग का या ओके ॐ अग्निर्मूर्धादिवः ककुत्पथिः पृथिव्या अयम् अभागुं रेदागुंसि जिन्वती यो नापृथिविभवा नृक्षरानिवेशनी यच्छानः शर्म क्षेत्रस्य पदिना वयगुङ् जयामसि श्वम् पोष्णयित् पोषयित्त्वा स नो मृदादीदृशे ओम् अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ो नाश्च ॐ अजिताय नमः निरू अपार निवेशनी निवेशिनी e tra ni patilya va yata ni tene dvaya mrti muktapa oshava dadichi o tichi eva tatapateh adishtavat ya namaha everybody okay with that yeah No problems? No. Okay. So, let's try individually. Uh, who wants to go first? I can go. go. Okay, Gayatri, go first. Go ahead, Mahesh. Okay. Om oh, okay. Mere Motha Teva Kakut Kakut Patif Tuchit Yaayam अपागुम्भेतागुम्पि जिमन्पि द्यो नापृथ्वी भवा रुक्षरानिवेशनी यच्छानर्म सप्रथा आ क्षेत्रह्यपतिना वय वयगुम् हिते नेव जयामसि कामश्वम् पोषयित्वा सनो दृढाति ूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपागम् रेतागम् सिजिन्वति यो नापृथिवी भवा नृक्षरा निवेशनी यच्छानः एच्छा, शर्मसप्रता आह क्षेत्रस्य पतिनाभयगम्हितेनेव जयामसि गामश्रुम् पोष इत्वा स नो मृडातिदृशे ए ओम् अधिदेवता प्रत्यधिदेवतासहिताय अङ्कारकाय नमः Who we'll wants to try next? Go. You can, go. can go? Okay, go ahead. Om um, Agyar Motha Divakta Kutpa Dispratiyya Ayam Avangaratra Gamsi Jinvadi Shiyona Prasibi Bhavan क्षत्रस्य पदिना वयगु कृतेनेव जयामसि गामशम् पोषयित्वा स नो मृदादि प्रत्याधिकारय नमः चिन्वति शो न पृथिवी भवानि वृक्षरानि वेशिनि यच्छानर्मः क्षत्रस्य पतिना वैगुञिते देवशयामसि कामश्चम्पोषयित्वासने निधादिदृशे ए ॐ अग्निर्मूर्ता दिवकुत्पति पृथिव्या अयम् अपागु देतागु सि जिन्वति सोन्या सोन्याकृतिरि भवा निश्च निवेशनी यच्छानः शर्म प्रपताः क्षेत्रस्य पतिना वयगुंसितेनेव जयामसि गामस्यम् पोषयिन्त्वासनो मृडातीदृशे ॐ अधिदेवता प्रत्यदिदेवता सहिताय अङ्गारकाय नमः very good everybody is done everybody let's shall we try it from the very beginning till here once so i think that's all the time we have we can try it together once okay all right from the very beginning om shukla brothers all right ready 1 2 3 शुक्लाम्बरतरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत्सर्वभिघ्नोपशान्तये जनः ॐ तपः ओगुं सत्यम् ओम् तत्तवर्वरे एण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओमापो यो धीरसोमृधम् ब्रह्म भूर्गुवस्सुवरोम् ममोपात्त समस्तदुर्दक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् आदित्यादिनवग्रहदेवताप्रसादसिद्धर्थम् आदित्यादिनवग्रहनमस्कारान् करिष्ये ॐ आ सत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च किरणिनयेन सविसारथेना देवूयादिभुवनाभिपश्यन् अग्निम् दूदम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुपुत्रतुम् येषामीशे पशुपथिः पशूनाम् चतुष्पदामुदजद्विपदाम् पागमे दुःरायस्पोषायजमानस्य सन्तु म् अधिदेवता प्रत्यध्यदेवामनिदाय आदिशाय नमः ॐ आप्याय स्वसमे तु ते विश्वः सोमवृश्नियम् भवायश्च सङ्खे अप्सुमे सोमो अपुरभीतम् तर्विश्वाहिजा अग्निं च विश्वशम्भुवमापश्चि विश्वभेदजीः गौरे भिमाय सलिला नित्येगपदी शिबदीति सा चतुष्पदी अष्टापदी नवपदी बभूषि सहस्राक्षरा परमे अधिदेवदा प्रत्यधिदेवदा सहिताय सोमाय नमः ॐ अभिर्मूर्दादिवत्पथिः पृथिव्या अयम् अबाहुं रेदाघुं सिजिन्वती स्योना प्रथिभिक्षानिवेशनी यच्छा न प्रथाः क्षेत्रस्य पतिना वय गुते भजयामसि गामश्वम् पोषयित्वा स नोभिदीदृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः विडियो वित् द होल् थिङ्ग् Yeah, the more we chant, it will be easier. I'm sure if you go to any Navagra, Phoma or Puja, you'll hear these things, okay? So, it's a good time to listen and practice as well if you go. I'll see if I can listen to a better recording of this, if I get, okay? Let's just do three Loka, Samastha, and stop for the day then. Okay. Om Loka, Samastha, Samastha, Samastha, लोकाः हस्ताः सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवन्तु ॐ शान्तिश्शान्तिशान्तिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ